सर्वेभ्यः अस्माकं योगनिष्ठजीवनमिति वर्गे भवतां सर्वेषां स्वागतम् अत्र एकं वक्तुमिच्छामि अत्र करपत्रस्य पठनात् प्राक् जीवने यत्किमपि वयं साधयितुम् इच्छामः शारीरिकस्तरे मानस् मानसिकस्तरे वा भवतु शारीरिकस्तरे वा भवतु शारी आध्यात्मिकस्तरे वा भवतु किमपेक्षितम् इति चेत् परिश्रमः अपेक्षितः अस्ति परिश्रमः परिश्रमं विना किमपि साधयितुं न शक्नुमः इदानीं शारीरिकस्तरे तर्हि किमपि खादनीयं बुभुक्षा अस्ति किमपि खादनीयं तर्हि एवमेव वयं तिष्ठामः चेत् अन्नम् आयाति वा न खलु तत्रापि परिश्रमः आवश्यकः खलु इदानीम् आम्रफलं खादनीयं चेत् तर्हि आम्रफलं वृक्षात् अथवा आपणतः तत्र आनेतव्यं तदनन्तरं तत्र तस्य बहिः यत् त्वक् अस्ति तस्य निष्कासनं करणीयम् अनन्तरम् अनन्तरमेव तस्य खादनं शक्यते खलु एवमेव अन्नं तण्डुलं खादनीयं चेत् तत्र तत्रापि तत्रा परिश्नः परिश्रमः अपेक्षितः अस्ति शारीरिकस्तरे परिश्रमः अपेक्षितः अस्ति एवमेव तिष्ठामः किमपि न भवति एवमेव किमपि ज्ञानं प्राप्तुम् इच्छामः मानसिकस्तरे तदानीमेवमेव वयं तिष्ठामः चेत् लभ्यते वा न लभ्यते खलु कदापि न लभ्यते तत्रापि परिश्रमः आवश्यकः अस्ति ज्ञानं प्राप्तव्यं चेत् तदर्थं पठनीयं तदर्थं तत्र शोधकार्यं कर्तव्यं तत्सर्वं कर्तव्यं तदानीमेव ज्ञानं लभ्यते अतः मानसिकस्तरे अपि परिश्रमः आवश्यकः अस्ति एवम् आध्यात्मिकस्तरे अपि परिश्रमः आवश्यकः अस्ति एवमेव कश्चन चिन्तयति ओ परमपुरुषः मम सर्वप्रियः अस्ति अहं तं प्राप्तुमिच्छामि इति एवम् उक्त्वा सः एवमेव तिष्ठति चेत् लभ्यते वा परमपुरुषः प्राप्यते वा न कदापि न प्राप्यते इत्युक्ते तदर्थमपि अस्माकं परिश्रमः अपेक्षितः अस्ति परिश्रमः करणीयः इत्युक्ते शारीरिकस्तरे अपि परिश्रमः करणीयः आहा। आहारः आहारनियमः अनन्तरं आहा। व्यायामः अनन्तरं निर्जलोपवासः एतत् सर्वम् अस्माभिः करणीयं तत्र सर्वत्र परिश्रमः अस्ति अपि च साधना अपि अस्माभिः करणीया तत्रापि परिश्रमः अस्ति एवमेव तिष्ठामः चेत् किमपि न लभ्यते तर्हि परिश्रमं विना परिश्रमेण विना कार्यसिद्धिः भवति दुर्लभा परिश्रमेण विना कार्यसिद्धिः भवति दुर्लभा तर्हि यत्किमपि क्षेत्रं भवतु नाम तत्र परिश्रमः अपेक्षितः अस्ति तत्तु सत्यं परिश्रमः शारीरिकस्तरे अपेक्षितम् अस्ति परिश्रमः अपेक्षितः अस्ति मानसिकस्तरे अपि परिश्रमः अपेक्षितः अस्ति आध्यात्मिकस्तरे अपि परिश्रमः अपेक्षितः अस्ति परन्तु कुत्र परिश्रमः अधिकः परिश्रमः भवेत् इत्युक्ते आदिन् अद्यत्वे कुत्र परिश्रमः सर्वदा भवति धनसम्पादनार्थं परिश्रमः सर्वदा भवति बहिः गत्वा धनसम्पादनं धनसम्पादनं धनसम्पादनम् इति तदर्थमेव अस्माकं परिश्रमः भवति अथवा नो चेत् बहिः गत्वा किमपि क्रेतव्यं किमपि लौकिकवस्तु क्रेतव्यं तदर्थं परिश्रमः भवति परन्तु कुत्र अस्माकं परिश्रमः भवेत् इति चेत् अस्माकं परिश्रमः परमपुरुषस्य प्राप्त्यर्थम् अस्माकः अस्माकं परिश्रमः भवेत् तस्य चिन्तनं सर्वदा भवेत् इत्युक्ते इत्युक्ते ये जनाः धनसम्पादनं सर्वं कृत्वा तेषां पुत्राः पुत्र्यः सर्वं किं ते स्वस्य कार्यं ते स्वयं कुर्वन्ति ते जनाः किं कुर्वन्ति इति चेत् ज्ञानार्जनार्थं ते प्रयासं कुर्वन्ति ओ इतोपि अधिकं ज्ञानं सम्पादनीयं ज्ञानं सम्पादनीयं ज्ञानं सम्पादनीयम् एतत् पठनीयं तत् ओ अत्र वर्गः अस्ति तत्र गच्छामि अत्र गच्छामि एतत् सर्वं वयं कुर्मः तत् पर्याप्तमस्ति वा तत्रैव अस्माकं परिश्रमः सर्वदा भवति चेत् पठने अपि च ज्ञानार्जने तदानीम् अग्रगतिः भवति वा न खलु केवलं पठनेन ज्ञानं भव केवलं पठनेन अग्रगतिः भवति वा अस्माकं मनः वर्धते केवलं पठनेन इत्युक्ते बहुवारं मया इत्युक्ते व्याकरणं पठितं बहुवारं मया न्यायग्रन्थं पठितम् अथवा न्यायग्रन्थः पठितः बहुवारं मया मया किमपि वेदान्तग्रन्थः मया पठितः सर्वं पर्याप्तं वा न खलु केवलं पठनेन अस्माकम् अग्रगतिः कदापि न भवति इत्युक्ते ज्ञानार्जने समयः अपेक्षितः नास्ति इति न परन्तु सर्वदा ज्ञानार्जने एव समयः व्यतीतः चेत् अग्रगतिः न भवति अस्माकं मनः तथैव अस्ति पञ्चवर्षात् पूर्वं यथा अस्माकं मनः आसीत् मने मनसि ये दोषाः आसन् पञ्चवर्षात् पूर्वं यदा मया अध्ययनम् आरब्धम् इदानीं पञ्चवर्षानन्तरमपि मन मम मनः तथैव अस्ति चेत् तादृशपठनेन कः लाभः इत्युक्ते वयं स्वयं परिशीलितम् अस्माभिः स्वयं परिशीलने इत्युक्ते मया अध्ययनम् आरब्धं पञ्चवर्षात् पूर्वं तदानीं मम मनः कथमासीत् मम मनसि के मलाः वयं स्वयं इदानीं पञ्चवर्षानन्तरं मया पञ्चवर्षपर्यन्तं मया सर्वं पठितं मया शास्त्रं तथा कथितं शास्त्रं सर्वं पठितं तर्हि मम मनः वर्धितं वा मम मनः परमपुरुषस्य समीपं गतं वा इति वयं स्वयं परिशीलयामः चेत् वयम् अवगन्तुं शक्नुमः न मम मनः वर्धितः नास्ति मम अहङ्कारः एव वर्धितः मया बहु किमपि पठितम् इति अहङ्कारः एव वर्धितः मया मम मनः वर्धितः मम मनः वर्धितम् इति कदापि न भवति इति वयं स्वयं परिशीलनं कुर्मः इत्युक्ते वेदान्तग्रन्थं वयं पठामः अहं ब्रह्मास्मि अहं ब्रह्मा अस्मि इति बहुवारं मया पठितं तेन ब्रह्मप्राप्तिः भवति वा न कदापि न भवति तदर्थम् अस्माभिः परिश्रमः कुत्र अस्माभिः करणीयः परिश्रमः अस्माकं परिश्रमः कुत्र भवेत् अस्माकं परिश्रमः आध्यात्मिकस्तरे भवेत् तदर्थम् अस्माभिः प्रयासः करणीयः कथं प्रयासः इति चेत् आहारनियमः आहारनियमः व्यवहारनियमः व्यायामः उपवासः एतत् सर्वं कुर्मः सत्सङ्गः एतत् सर्वं कुर्मः अनन्तरम् आसनानि प्रतिदिनम् आसनानि प्रतिदिनं साधना एतत् सर्वं कुर्मः सेवा जनसेवा एतत् सर्वं कुर्मः तदानीमेव अस्माकं मनः वर्धते एतत् सर्वं करणीयं चेत् तदर्थं शारीरिकपरिश्रमः आवश्यकः अस्ति मानसिकपरिश्रमः आवश्यकः अस्ति तर्हि अस्माकं परिश्रमः कुत्र भवेत् इति अस्माभिः सर्वदा चिन्तनीयम् मम परिश्रमः अद्य मम परिश्रमः कुत्र मम परिश्रमः जातः मम परिश्रमः शारीरिकस्तरे परिश्रमः जातः वा मानसिकस्तरे परिश्रमः जातः वा अथवा कुत्र मम परिश्रमः अस्ति इति वयं स्वयं परिशीलयितुं शक्नुमः यदा वयं परिशीलनं कुर्मः तदा वयम् अवगन्तुं शक्नुमः यत् ओ अद्य परिश्रमः केवलं शारीरिकस्तरे एव मम परिश्रमः ततः अथवा केवलं मानसिकस्तरे मम परिश्रमः ततः आध्यात्मिकस्तरे मम परिश्रमः कोपि परिश्रमः एव नास्ति नास्ति प्रायेण जनानाम् आध्यात्मिकस्तरे परिश्रमः बहु न्यूनः न्यूनः परिश्रमः एव भवति तर्हि अस्माभिः चिन्तनीयं मम अग्रगतिः कदा भवति इत्युक्ते अग्रगतिः मया इष्यते वा इति प्रथमः प्रश्नः इत्युक्ते यद्यपि मनसि वयं चिन्तयामः अग्रगतिः इष्यते इति चिन्तयामः परन्तु व्यवहारे तथा न वयं न कुर्मः इत्युक्ते तत्र प्रथमतया अस्माभिः अवगन्तव्यं मम मार्गः कः मम मार्गः कः अहं समीचीनतया मार्गे अस्मि वा समीचीनः मार्गे समीचीनमार्गे अहम् अस्मि वा इति प्रथमतया प्रश्नः समीचीनः मार्गः अस्ति चेत् तत्र मनः तत्र एव मम मनः मम मम आत्मा मम मनः मम हृदयं सर्वं तत्र भवति चेत् तदानीमेव अग्रगतिः भवति इत्युक्ते केवलम् एकवारं सत्सङ्गे आगत्य किमपि शृणुमः अनन्तरं गच्छामः गृहे गच्छामः तदनन्तरं गृहे यत्किमपि करणीयं तदेव वयं कुर्मः तत्र परिवर्तनमेव नास्ति परिश्रमः नास्ति तदानीम् अग्रगतिः कदापि न भवति तर्हि परिश्रमेण विना कार्यसिद्धिः न भवति दुर्लभ बहु डिफिकल्ट् अस्ति बहु कष्टकरमस्ति कस्मिन्नपि क्षेत्रे परन्तु आध्यात्मिकक्षेत्रे अधिकः प्रयासः अधिकः परिश्रमः भवेत् अधिकः परिश्रमः भवेत् यदा इत्युक्ते कथम् अस्माकं व्यवहारः कथं भवेत् इत्युक्ते मृत्युना केशः गृहीतः चेत् इत्युक्ते मृत्युना केशः गृहीतः इव अस्माकं अस्माभिः धर्मं धर्मः धर्मः आचरणीयः मृत्युना केशः गृहीतः डेत् इस् होल्डिङ्ग् योर् हेर् तथा अस्माभिः धर्मः आचरणीयः इत्युक्ते इत्युक्ते प्रति प्रतिक्षणं प्रतिदिनम् अस्माभिः भगवतः चिन्तनम् अस्माभिः करणीयं प्रतिक्षणं प्रतिक्षणं ब्रह्मभावे अस्माभिः अस्माभिः तद् तादृश भा तादृशी भावना अस्माभिः स्वीकर्तव्या तर्हि तदानीमेव अस्माकम् अग्रगतिः भवति इत्युक्ते प्रथमतया अस्माकं मनसि दृढसङ्कल्पः भवेत् दृढसङ्कल्पः इदानीम् अहं दृढसङ्कल्पं स्वीकरोमि इत्युक्ते अत्र यत्किमपि उच्यते तत् समीचीनम् अस्ति मम अग्रगतिः अवश्यं भवति इति तादृशविश्वासः यदा अस्ति तदानीं तस्मिन् तस्यां दिशि वयं सङ्घर्षं कुर्मः नो तर्हि ओ सम्यक् अस्ति श्रवणार्थं सम्यक् अस्ति अस्तु अहं शृणोमि हा सम्यक् अस्ति मम मनसि मम मनसि इदानीं तृप्तिः अस्ति अहं मम मनसि शान्तिः अस्ति एतत् श्रवणेन इति कृत्वा अहं शृण्मः अहं सुन, शृणो इति तत् पर्याप्तमस्ति वा इति चेत् न केवलं श्रवणेन नास्ति यद्वयं शृण्मः तस्य व्यवहारे अस्माभिः आनेतव्यम् इत्युक्ते क्षणैः क्षणैः अहम् आ आनयामि इति न क्षणैः क्षणैः आनयामि इति मम मनसि अस्ति चेदहं किञ्चित् अद्य करोमि किञ्चित् अनन्तरं करोमि इति चिन्तयामः चेत् तदानीं किं भवति अनन्तरम् अस्माकं समयः अस्ति वा न वा इति न जानीमः अस्मिन् लोके इत्युक्ते मृत्युः कदा आयाति इति कोऽपि जानाति वा न जानाति खलु कोऽपि न जानाति मृत्युः कदा आयाति इति कोऽपि न जानाति अतः अहं श्वः करोमि परश्वः करोमि इति तादृशभावना मा भवेत् इत्युक्ते यद् शृण्मः तस्य आचरणे अद्यैव इदानीमेव अहं करोमि इदानीमहं करोमि अनन्तरम् इति मनसि चिन्तनं कदापि न भवेत् तदानीम् अस्माकम् अग्रगतिः अवश्यं भवति अत्र न कोऽपि संशयः अग्रगतिः अवश्यमेव भवति इत्युक्ते एतावता अस्माभिः आरम्भतः किं ज्ञातम् इति चेत् मानवधर्मः कः मानवधर्मः इत्युक्ते अनन्तेषणा एव अस्माकं मानवधर्मः अस्ति तस्यां विषि यदा वयं गच्छामः तदानीमेव अस्माकं तत्र मनसि अपि आनन्दः जायते आनन्दः जायते तृप्तिः जायते तर्हि तत्र क्लेशः न भवति इत्युक्ते यदा वयं चिन्तयामः मम कृते एतदपेक्षितं तदपेक्षितं तदपेक्षितं यदा वयं चिन्तयामः तदानीं तत्र मान मनसि सङ्घर्षः भवति क्लेशः भवन्ति क्लेशः भवन्ति यदा तद्वस्तु न लभ्यते यतोहि मया इदं प्राप्तव्यं मया एतत् समापनीयम् इति एतादृशी भावना यदा मनसि भवति तदानीं यदा तदर्थं यथा अपेक्षितं तथा न गच्छति साफल्यं न प्राप्यते तदानीं मनसि क्लेशः भवन्ति तदानीं तत्र अशान्तिः भवति ओ मया न प्राप्तम् इति परन्तु यदा वयं चिन्तयामः मम जीवनस्य लक्ष्यं केवलं परमपुरुषस्य प्राप्तिः इति एव मम जीवनस्य लक्ष्यं मम कृते किमपि न अपेक्षितं मम अग्र अस्याम अस्यां दिशि एव भवेत् इति यदा अस्माकं दृढसङ्कल्पः भवति तदानीं मनसि कोऽपि क्लेशः एव न भवति यतोहि तत्र आशा एव न भवति खलु इदं प्राप्तव्यम् अधं तत् प्राप्तव्यम् प्राप्त इति आशा न भवति आशा नास्ति चेत् तदानीं क्लेशः नास्ति जीवनं बहु बहु सरलं भवति सुलभं भवति क्लेशः न भवन्ति इति कृत्वा तदर्थम् अस्माभिः यानि कार्याणि वयं कुर्मः शारीरिकस्तरे मानसिकस्तरे या आध्यात्मिकस्तरे तत्सर्वं तत्सर्वमपि अस्माकं मनसः तत्र अनन्तं प्रति धावनार्थं भवेत् यत्किमपि वयं कुर्मः अनन्तं प्रति धावनार्थमेव भवेत् तर्हि शारीरिकस्तरे अस्माभिः किमुक्तम् इति चेत् शरीरं मनसः कृते एकं वासस्थानमस्ति एकं वासस्थानमस्ति तर्हि शरीरं सम्यक् भवेत् शरीरं सम्यक् नास्ति चेत् अग्रगतिः कदापि न भवति इति शरीरस्य कश्चन आकारः अस्ति त तस्य पालनम् अपेक्षितमस्ति तदेव यन्त्रमस्ति मनसः कृते तद् मनः तत्र वसति तर्हि शरीरस्य एकं मुख्यकार्यम् अस्ति तर्हि शरीरं स्वस्थं नास्ति चेत् तदानीं तत्र मनः य यद् यद मनः वर्तते तदपि समीचीनं न भवति अस्य विषये अस्माभिः पूर्वं कृतम् तर्हि यदि कस्य पुरुषस्य रोगः अस्ति शरीरे शरीरस्य अवयवे अवयवेषु रोगाः सन्ति सः इतः ततः गन्तुं न शक्नोति तर्हि कथं वा तस्य आध्यात्मिकस्तरे अग्रगतिः भवति यतोहि तद् सः किमपि न कर्तुं शक्नोति चेत् तस्य मनसि शान्तिः भवति वा तस्य मनसि शान्तिः न भवति शान्तिः चेत् सः कथं वा साधनां कर्तुं शक्नोति कथं वा आध्यात्मिकजीवने सः गन्तुं शक्नोति इति कृत्वा तत्र शरीरं सम्यक् नास्ति चेत् अग्रगतिः न भवति तदानीं मनः मनसः अग्र मनः अपि भवति मनः अपि कुण्ठितं भवति तर्हि मानवधर्मस्य पालनार्थं शरीरं सम्यक् भवेत् तदर्थम् अस्माभिः किम् इति चेत् अस्माकं स्वास्थ्यं सम्यक् भवेत् तदर्थम् अस्माभिः सात्विकः आहार आहारः एव स्वीकर्तव्यः तदानीम् अस्माकं शरीरस्य ये कोशाः सन्ति ते सर्वे अपि सम्यक् भवन्ति अस्माकं मस्तिष्कः अपि सम्यक् भवति अस्माकं शरीरस्य कोषाः प्रत्येकं कोषः अन्नेन एव निर्मितः अस्ति अतः अस्माकम् अन्नं सात्विकं भवेत् तत्र इत्युक्ते तत्र किं पशवः मीट् एग् फिश् एतत् सर्वं न भवेत् अनियन् गार्लिक् मश्रूम् एतदपि न भवेत् अस्य विषये अपि अस्माभिः उक्तं डैरि प्राडक्ट्स् दुग्धम् अपि च घृतम् एतत् सर्वं मा भवेत् तदानीं किं भवति अस्माकं शरीरं स्वस्थं भवति शरीरं स्वस्थम् अस्ति चेत् तदानीं मनः अपि सम्यक् भवति तदानीम् अस्माकं धावनं सीमातः असीमा असीमितं पर्यन्तम् असीमितपर्यन्तम् अस्माकं धावनं सुलभं भवति इति अस्माभिः तत्र दुग्धस्य विषये बहु चर्चा कृता अस्ति दुग्धं केवलं शिशोः अस्ति मातुः दुग्धं केवलं शिशोः अस्ति अत्र धेनोः दु धेनोः दुग्धस्य आवश्यकता नास्ति अस्माकं जीवने आवश्यकता कदापि नास्ति अपि च तत्र अहिंसा इत्यपि विषयः अस्ति तत्र अद्यत्वे धेनोः धेनूनां हिंसा कियत्पर्यन्तं जायते इति वयं सर्वे जानीमः अस्माभिः तत्र वीडियो अपि अस्माभिः दृष्टं पूर्वं तदर्थं तत्र अपि मास्तु तर्हि तत्र किं खादितव्यम् इति चेत् तत्र रा फ्रूट्स् वेजिटेबल्स् शाकाः अपि च फलानि एतदेव दे, एतदेव खादितव्यम् अधिकतया अपि च किञ्चित् आवश्यकं चेत् तत्र यू केन् ईट् बायिल्ड् फ्रूट्स् एण्ड् वेजिटेबल्स् अपि च रैस् एण्ड् बीन्स् रैस् बीन्स् एण्ड् ग्रेन्स् एतत् सर्वं वयं खादितुं शक्नुमः एतादृशं वयं खादामः चेत् तदानीम् अस्माकं शरीरे बहु लाभदायकं भवति अस्माकम् एनर्जि लेवेल्स् अपि अधिकं भवति भव वयं स्वयम् अनुभोक्तुं शक्नुमः यदि वयं प्रयासं कुर्मः अत्रापि परिश्रमः अपेक्षितः अस्ति प्रथमदिने यदि वयं चिन्तयामः न मया न कर्तुं शक्यते अहं न करोमि श्वः करोमि इत्येवं चिन्तयामः चेत् कदापि न जायते तत्रापि परिश्रमः अपेक्षितः अस्ति प्रथमदिनं यदा वयं खादामः तदानीं सम्यक् नास्ति इति भाति ओ मया खादितुं न शक्यते इति भाति परन्तु यदा वयं परिश्रमं कुर्मः तदानीं तदपि सुलभं भवति अनन्तरं षड्मासानन्तरं वयं पश्यामः चेत् ओ एतत्तु तादृशकष्टकरं नास्ति खलु मया किमर्थम् एवं चिन्तितम् अस् इदानीं तु अभ्यासः जातः अतः ओ लवणं नास्ति चेदपि नास्ति चिन्ता कोऽपि लवणस्य आवश्यकता एव नास्ति लवणम् इति चिन्तनमपि मनसि नायाति एवम् एवं, एवं जायते तत्रापि परिश्रमस्य आवश्यकता अस्ति परिश्रमः सर्वत्र परिश्रमः खलु तदर्थम् इत्युक्ते केचन जनाः वदन्ति मया न ज्ञायते कथं सात्विकाहारः मया स्वीकर्तव्यः किं किं करणीयं मया अहं न जानामि कथम् एतद् केवलं शाकाः फलानि एव अहं खादामि इति अथवा फलानि खादामि इति कथम् एवं भवितुम् अर्हति इति तादृशप्रश्नाः भवन्ति इति कृत्वा तत्र अस्माकं तत्र शिविरः अस्ति डिसेम्बर् मासे वाराणस्यां तत्र भवन्तः अवश्यम् आगच्छन्तु आगत्य एकसप्ताहपर्यन्तं वयं योगनिष्यजीवनं कथं योगनिष्यजीवनस्य पालनं कथं करणीयम् इति वयं ज्ञातुं शक्नुमः तत्र आहारस्य नियमः कथं भवति सात्विक आहारस्य ग्रहणं कथं करणीयं किं किं खादनीयम् इति सर्वं वयं जानीमः अपि च साधना कथं करणीया साधनायाः दीक्षा अपि भवति तदपि वयं ज्ञातुं शक्नुमः तदानीं सम्पूर्णतया योगनिष्यजीवने वयं व्यस्ताः भवितुम् अर्हामः एवम् अपि मया उक्तं तत्र लवणस्य आवश्यकता नास्ति शर्करायाः आवश्यकता नास्ति तैलस्य आवश्यकता नास्ति इत्यपि मया उक्तं खलु यदा कोपि भोजनं पाकं करोति तदानीं तैलस्य आवश्यकता नास्ति लवणस्य आवश्यकता नास्ति शर्करायाः आवश्यकता नास्ति इति मया उक्तं तर्हि इत्युक्ते कोपि वदति तु मया तु तैलं विना लवणं विना शर्करां विना खादितुं न मम टेस्ट् बड् मम रसगुल्माः एव एवमेव एवमेव सन्ति ते युनो लवणं विना भोजनस्य ग्रहणं न कर्तुं शक्नोति इति वदति चेत् तत्तु अस्माकम् इन्द्रियनिग्रहः नास्ति इत्येव अर्थः अस्ति इत्युक्ते अन्ततो गत्वा आध्यात्मिकजीवने किम् अपेक्षितम् इति चेत् इन्द्रियनिग्रहस्य एव इन्द्रियनिग्रहः एव अपेक्षितमस्ति खलु इन्द्रियनिग्रहः इत्युक्ते सर्वेषाम् इन्द्रियाणां निग्रहः भवतु अत्र चक्षुरिन्द्रियं वा रसनेन्द्रियं वा श्रवणेन्द्रियं वा त्वगेन्द्रियं वा अथवा यत्किमपि तत्र इन्द्रियस्य निग्रहः एव बहु आवश्यकः अस्ति खलु तर्हि रसनेन्द्रियमेव अपि रसनेन्द्रियस्य निग्रहः अपि आवश्यकः अस्ति खलु इत्युक्ते कोपि वदति अहं लवणं विना न खादामि तर्हि तस्य अर्थः कः तस्य अर्थः अस्ति सः रसनेन्द्रियस्य निग्रहं कर्तुं न शक्नोति इत्येव अर्थः अस्ति इत्युक्ते इत्युक्ते कोऽपि तत्र मधुपानस्य त्यागं कर्तुम् इच्छति चेत् तदर्थं तेन प्रयासः करणीयः एवं लवणस्य त्यागः अपेक्षितः अस्ति तदर्थं प्रयासः करणीयः अस्ति यदा प्रयासं कुर्मः तदानीम् अस्माकं शरीरम् अस्माकं रसगुल्माः परिवर्त्यन् परिवर्तन्ते परिवर्तन्ते यदा तेषां परिवर्तनं भवति तदानीं तदनन्तरं क्लेशः न भवति तदनन्तरं क्लेशः न भवति वयं सुलभतया Uh, uh, लवणं विना भोजनं ग्रहीतुं शक्नुमः यदा अस्माकं जन्म जातं तदानीं तु यदा वयं शिशवः uh, स्मः तदानीं तु uh, अस्माकं कृते लवणस्य आवश्यकता नासीत् तैलस्य आवश्यकता नासीत् शर्करायाः uh, आवश्यकता नासीत् तदनन्तरम् अस्माकं परिवारेषु तादृश अभ्यासः जातः ओ भोजने लवणं भवेत् तैलं भवेत् घृतं भवेत् एतत् सर्वम् अभ्यासः जातः तेन किं भवति इति चेत् इदानीम् अस्माकं रसगुल्माः रसनेन्द्रियं तद्विना भोजनस्य ग्रहणं न करोति इति तथा जातं तर्हि अत्रापि सङ्घर्षः परिश्रमः अपेक्षितः परिश्रमं विना सिद्धिः न भवति सिद्धिः दुर्लभा अतः तदर्थमपि अस्माभिः परिश्रमः करणीयः अनन्तरं बहिः गत्वा न खादनीयम् इत्युक्ते अवाय्ड् कम्पनी प्राडक्ट्स् एण्ड् रेस्टोरेण्ट् बहिः गत्वा कुत्रापि भोजनं न करणीयम् इत्युक्ते कम्पनी प्राडक्ट्स् सट् हेव् इन्ग्रीडियन्ट्स् डोण्ट् बै दम् ए गो टु द मार्केट् जस्ट् बै फ़्रूट्स् वेजिटेबल्स् ग्रेन्स् एण्ड् दट्स् आल् यु नीड् दट्स् आन् द फुड् रेट् तर्हि आहारस्य विषये अस्माभिः परिश्रमः करणीयः अनन्तरं निर्जलोपवासः निर्जलोपवासः तत्र मासे दिनद्वये एकादश्यां निर्जलोपवासः अस्माभिः करणीयः अनन्तरं that the cleaning process the breaking process fast breaking process kadapi asma vi palaniyam anena kim -hmm. bhavati upavaseena kim bhavati upavaseena asmakam vairagyam vardate vairagya bhavaha vardate tadanin asmakam manaha lokeena varnitam na bhavati itipe vairagya bhavaha itipe vayam loke vathamaha parantu asmakam manaha lokeena atra varnitam na bhavati lokeena it will not be colored by the world इट्स् नाट् बै बि कलर्ड् बै द एलिमेण्ट्स् आफ़् दिस् वर्ल्ड् hmm? तर्हि वैराग्यं नाम विरागस्य भावः रागः नास्ति तत्र रागः नास्ति विरागस्य भावः वैराग्यं तर्हि निर्जलोपवासः अपि आवश्यकः अस्ति यतोहि तत्र किमर्थं निर्जलोपस्य उपवासस्य उपवा आवश्यकता अस्ति यतोहि प्रतिदिनं वयं भोजनं स्वीकुर्मः खलु प्रतिदिनं वयं भोजनं स्वीकुर्मः अस्माकं मनः भोजनेन इन्टाक्सिकेटेड् भवति अस्माकं मनः तत्र सर्वदा तत्र भोजनस्य विषये मनः गच्छति इत्युक्ते तत्र समयः भोजनस्य समयः अस्ति चेत् मनः भोजनस्य विषये चिन्तनं करोति तर्हि प्रतिदिनं त्रिवारं वयं भोजनं स्वीकुर्मः चेत् मनः भोजनेन भोजनेन रागः भवति मनसि तर्हि तत्र उपवासदिने वयं भोजनं न कुर्मः तर्हि भोजनस्य चिन्ता न भवति तर्हि मनः तत्र न गच्छति वा मनः तस्मिन् दिने परमपुरुषस्य समीपे भवति उपवासस्य दिने उपवासस्य दिने मनः भोजनेन तत्र भोजनस्य विषये चिन्तनमपि न भवति इति कृत्वा तत्र उपवासः वैराग्यार्थम् अस्माभिः करणीयम् उपवासः करणीयः अनन्तरम् आसनानि प्रतिदिनम् अस्माभिः आसनानि करणीया करणीयानि द्विवारम् आसनानि करणीयानि प्रातःकाले अनन्तरं सायङ्काले आसनानि करणीयानि अनन्तरं तत्र व्यायामः अपि अपेक्षितः अस्ति व्यायामः अस्माभिः करणीयः एतत् सर्वम् एतत् सर्वं मुख्यविषयः अस्ति मानवधर्मस्य पालनार्थम् एतत् सर्वं वयं कुर्मः चेत् अस्माकं मनः वर्धितं भवति अस्माकं मनः सूक्ष्मं भवति स्थूलात् मनः सूक्ष्मतरं भवति यतोहि मनः तु मनुष्यस्य मनः तु मनः एव मनसः प्राधान्यं वर्तते मनुष्ये मनुष्येषु मनसः प्राधान्यं वर्तते तर्हि यावत्पर्यन्तं मनसः कृते शरीरात् तत्र शरीरात् सहायं न लभ्यते तावत्पर्यन्तम् अग्रगति पर अनन्तं प्रति धावनं न शक्यते इति तत्र अस्माकं परिश्रमः अपेक्षितः अस्ति आध्यात्मिकस्तरे मानवधर्मस्य पालनार्थम् अस्माकं परिश्रमः अपेक्षितः अस्ति परिश्रमं विना सिद्धिः दुर्लभा सिद्धिः न भवति एव परिश्रमं विना सिद्धिः न भवति परिश्रमः शारीरिकस्तरे परिश्रमः आवश्यकः अस्ति योगनस्य जीवनस्य पालनार्थं शारीरिकस्तरे परिश्रमः आवश्यकः अस्ति मानसिकस्तरे परिश्रमः आवश्यकः अस्ति यतोहि अस्माभिः किं किं करणीयं ज्ञानम् आर्जनीयं किं करणीयं तद् ज्ञात्वा अस्माभिः तस्य करणीयम् इत्युक्ते तत्र सत्यस्य पालनं करणीयम् इति उक्तं चेत् तत् केवलं श्रवणेन न जायते खलु इति व्यवहारे यदा यदा व्यवहारे सत्यस्य पालनम् अस्माभिः करणीयं तदानीं करणीयम् इति इति कृत्वा यद्यदस्माभिः पठितं तत् केवलं पठनार्थं नास्ति केवलं श्रवणार्थं नास्ति परन्तु तस्य व्यवहारे आनयनम् इति कृत्वा मानसिकस्तरे अपि अस्माभिः प्रयासः करणीयः आध्यात्मिकस्तरे अपि प्रयासः करणीयः साधना अस्माभिः करणीया तर्हि साधना ज्ञातव्या तदर्थं तत्र शिबिरं वाराणस्याम् आगत्य साधना कथं इति भवन्तः ज्ञातुं शक्नुवन्ति अस्तु एतत् सर्वम् उक्त्वा इदानीम् अत्र अस्माकं कोपि प्रश्नः अस्ति वा ओके okay. तर्हि वयं करपत्रं प्रति गच्छामः ओके अस्माभिः किमुक्तम् आसीत् इति चेत् तत्र इयं सृष्टिः ब्रह्मणि एका कल्पना एका एका कल्पना अस्ति इति अस्माभिः दृष्टं तर्हि कल्पना चेत् तर्हि तत्र यदा अस्माकं कल्पना भवति तदानीं कल्पनायाः समाप्तिः भवति कल्पना इत्युक्ते सर्वदा कल्पना जायते इति नास्ति कदाचित् कल्पनायाः समाप्तिः भवति एवं परमपुरुषस्य कल्पनायाः सगनं समाप्तिः कदाचित् भवति वा कदा भवति समाप्तिः भवति चेत् कदा भवति इति तादृशप्रश्नः आयाति तर्हि अत्र सृष्टिः कथं जाता इति चेत् यदा सगुणब्रह्मणि प्रकृतेः प्रभावेन पुरुषः प्रकृतेः प्रभावः यदा पुरुषस्य उपरि भवति तदानीं पुरुषः शिष्टिरूपेण परिणमते इत्युक्ते तस्य पुरुषस्य चित्ते जगतः जगतः निर्माणं भवति जगतः कल्पना भवति तर्हि इदं जगत् केवलं परमपुरुषस्य चित्ते विचारतरङ्गाः एव सन्ति तर्हि तेषां तादृशविचारतरङ्गाणां समाप्तिः कदा भवति यदा पुरुषः प्रकृतेः प्रभावात् मुक्तः भवति तदानीं विचार विचारतरङ्गस्य समाप्तिः भवति तर्हि सगुणब्रह्मणि तत्र सगुणब्रह्मणि यदा सृष्टिः जायते तदानीं परमपरमपुरुषः त्वं तत्र जीवात्मरूपेण अनन्तसङ्ख्यकजीवात्मरूपेण व्यक्तीकृतं व्यक्ति जीवात्मरूपेण व्यक्तीकृतं परमपुरुषेण तर्हि यावत्पर्यन्तम् एतेषां सर्वेषां जीवात्मानां जीवात्मानां मुक्तिः न भवति तावत्पर्यन्तं सृष्टिः जायते परन्तु जीवात्म जीवात्मनः जीवात्मनः अनन्तसङ्ख्यकाः अनन्तसङ्ख्यकाः तर्हि इदानीं केचन जीवात्मा जीवात्मनः मुक्तिः चेत् इत्युक्ते तत्र केषाञ्चन जीवात्मनां मुक्तिः चेत् तदानीं सृष्टिः समाप्यते वा इति चेत् तदानीमपि केचन जीवात्मनः मुक्तिः चेत् तदानीमपि तत्र इतोपि असङ्ख्यकाः जीवात्मनः सन्ति तर्हि तत्र सृष्टिः तदानीमपि जायते यावत्पर्यन्तं सर्वेषां सर्वेषां जीवात्मनां मुक्तिः न भवति तावत्पर्यन्तं सृष्टिः तु जायते एव तावत्पर्यन्तम् इत्युक्ते एकः जीवात्मः जीवात्मा अस्ति चेदपि तत्र सृष्टिः जायते एव तर्हि इयं सृष्टिः यावत्पर्यन्तं जायते इति चेत् यावत्पर्यन्तं तत्र जीवात्मनः सन्ति तावत्पर्यन्तं सृष्टिः जायते तावत्पर्यन्तं पुरुषः प्रकृतेः प्रभावे एव भवति त तत तदर्थं तत्र इयं कल्पना सर्वदा सर्वदा भवति तस्य समाप्तिः कदापि न भवति यतोहि सर्वेषां जीवात्मनां मुक्तिः न शक्यते इत्युक्ते तत्र, तत्र केषाञ्चन जीवात् केषाञ्चन जीवात्मनां मुक्तिः जायते चेदपि इतोऽपि असङ्ख्यकाः जीवात्मनः सन्ति इति कृत्वा तेषां मुक्तिः अपि अपेक्षितः मुक्तिः अपेक्षिता अस्ति इति कृत्वा तत्र परमपुरुषस्य चित्ते विचारतरङ्गाः सर्वदा भवन्ति एव इति तावत्पर्यन्तम् अस्माभिः दृष्टम् इदं परिचयमपि समाप्तं खलु अथवा इतः आरभ्य पठनी वा सृष्टिः भ्रह्मणः कश्चन विचारतरङ्गति इति सरलाभगिन्या पठितमिति चिन्तयामि पठितं हा पठितम् अस्तु एतदेव चिन्त्य अस्तु तर्हि इदानीं आ... किञ्चित् अग्रे गच्छामः तर्हि okay. ओके सरिताभगिनी पठति वा आं भगिनि सृष्टिः सगुण ब्रह्मणः विचार विचारक्षेपणं तगुण् ब्रह्मणः कल्पनायां कश्चन एषा सृष्टिः निर्मिता कथं कथमेषा सृष्टिः निर्मिता इति व्याख्यातव्यम् रामः यद्यपि भागल्पुरे अस्ति तथापि स्वकल्पनायां चान्दनीचौक् नगरं द्रष्टुं शक्नोति तस्य चित्तं चान्दनीचौक् नगरस्य रूपं गृह्णाति यदा तस्य अहं तत्त्वं चान्दनीचौकनगरं चिन्तयति रामस्य चित्तं मनसः भागः अस्ति रामः च स्वमनसि चान्दनीचौक् नगरं सृजति तथैव तगुन्ब्रह्मणा स्वकल्पनायां जगतः स्पष्टम् तस्य चित्तं विश्वं जातम् अहं तत्त्वस्य चिन्तनं सगुण् ब्रह्मणः मनसः भागः चित्तम् इति कारणात् सगुण्ब्रह्मणः मनसि मनसि जगत् निर्मितम् अस्ति पूर्वमेव दृष्टं यत् चान्दनीचौक् नगरस्य रूपं ग्रहीतुं रामस्य चित्तं यत् सूक्ष्मसत्ता वर्तते तत् चान्दनीचौक् नगरम् इव स्थूल भव, स्थूलवस्तु भवति स्थूलवस्तुनः रूपं ग्रहीतुं चित्तम् सूक्ष्मतः स्थूलरूपेण परिवर्तेत एतत् परिवर्तनं सहसा सहसा भवितुं न शक्नोति चित्तं क्रमेण स्थूल भवे, ततः अग्रे एव तत् चान्दनीचौक् नगरस्य रूपं सम्यक् रहीतुं शक्नोति यदि दुग्धं क्षीरं जलभागस्य पाकेन यह घनीभूतः दुग्धपदार्थः प्राप्यते कर्तव्यं तर्हि तत् कर्तुं न शक्यते दुग्धस्य क्वथनं कर्तव्यं येन तत् क्रमेण घनीभूतं भवति तदा एव क्षीरस्य गृह्णाति तथैव सगुणब्रह्मणः सूक्ष्मचित्तं क्रमेण स्थूलीकृत्य अन्ते क्षितितत्वस्य स्थूलरूपं गृह्णाति अतः चित्तस्य स्थूलीकरणस्य परिणामेन चित्तस्य विकारः एव सृष्टिः स वस्थातः स्थूलवस्था स्थूलावस्था आपन्नः अभवत् अत्र लिखितमस्ति स्थूलब्रह्मणः मनसि एव सृष्टिः सञ्जाता इति यदा कोऽपि मनुष्यः कल्पनां करोति तस्य मनसि किञ्चित् विचारम आगच्छति मम मम पुत्री तत्र वसति तत् तस्य विषये विषये चिन्तनं करो मनसि चिन्तनं भवति तदा मनसि सूक्ष्मविचाराः आगच्छन्ति ते मन्दं मन्दं स्थूल आकारं गृह्णाति तस्य सम्पूर्णं चित्रं मनसि आगच्छति तत्र एवम् अस्ति एवम् अस्ति एवं प्रकारेण समस्तस्य तस्य, तस्य स्थानस्य कल्पनां करोति चेत् सः स्थानः मनसि शनैः शनैः स्थूलरूपं गृह्णाति एवमेव एवा यदा सगुणपुरुषस्य मनसि कल्पना जायते जा कल्पना तदा तस्य मनसि शन शन स्थूलूं गृति प्रकारे सृष्टि निर्मता सह यदा विचार आरंभं कहती प्रकृते प्रभाव तदा सूक्ष्मतरंगा शन शन तकार गृति प्रकारे स्थूल निर्मता समीचीनं न सम्यक् समीचीनतया उक्तवती इति इति एव विषयः अस्ति समीचीनम् सर्वम् उक्तवती इत्युक्ते तदेव सः एव विचारः इत्युक्ते अयं परिच्छेदः इत्युक्ते तत्र अत्र नूतनविषयः अस्ति इत्युक्ते इत्युक्ते तत्र शुद्धपुरुषः सूक्ष्मः अस्ति तत्र शुद्धपुरुषः सूक्ष्मः अस्ति परन्तु इदं जगत् स्थूलं वर्तते तर्हि स्थूलस्य बीजः कथं पुरुषे सूक्ष्म सूक्ष्मपुरुषे वर्तते इति प्रश्नः आसीत् यतोहि तत्र इदं जगत्तु स्थूलं वर्तते तदानीं तत्र अस्माभिः किं चर्चितम् इति चेत् अत्र इदं जगत्तु वस्तुतः इदं स्थूलं जगत् वस्तुतः परमपुरुषस्य चित्ते कल्पनामात्रं वर्तते इति अस्माभिः चर्चितं तर्हि अत्र उपमा अपि अस्माभिः दृष्टं सगुणब्रह्मणः उपमा ऐन्द्रजालिकेन सह अपि अस्माभिः दृष्टं यथा ऐन्द्रजालिकस्य वशे केचन जनाः भवन्ति चेत् तदानीम् ऐन्द्रजालिकस्य चित्ते यदस्ति तदेव ते जनाः पश्यन्ति एवम् अत्र वयं सर्वे अपि परमपुरुषस्य चित्ते स्मः परमपुरुषेण यद् दृश्यते तदेव वयं पश्यामः परमपुरुषेण वृक्षः प्रदर्शितः चेत् वयं वृक्षं पश्यामः वयं सर्वे अपि परमपुरुषस्य चित्ते स्मः इति तत्र अस्माभिः सर्वं दृष्टं खलु तर्हि इदं जगत् केवलं कल्पना मात्रमस्ति तर्हि कल्पना इति कृत्वा जगत् नित्या इति वक्तुं न शक्यते इत्यपि अस्माभिः दृष्टं तर्हि जगत् वर्तते जगतः सापेक्षिकसत्यत्वं वर्तते तर्हि अत्र यतोहि तत्र परमपुरुषस्य चित्ते तु कल्पना जायमाना अस्ति कल्पनायाः विषयः वास्तविक वास्तविकः नास्ति चेदपि कल्पना तु जायमाना अस्ति तस्य तस्यां कल्पनायां वयं सर्वे अपि क्रीडकाः एव स्मः तर्हि तस्य तस्य कल्पनायां वयं स्मः तर्हि यदा मम स्वप्नः भवति तादृशं नास्ति खलु मम स्वप्नः इदानीमस्ति अग्रिमक्षणे नास्ति परन्तु यद्यपि परमपुरुषस्य कल्पना अस्ति परन्तु वयं सर्वे तत्र स्मः अतः मिथ्या इति तु वक्तुं न शक्नुमः तर्हि तत्र परमपुरुषस्य चित्तं जगतः रूपं गृह्णाति जगतः रूपं वस्तुतः जगतः रूपं गृह्णाति जगति यानि यानि वस्तूनि सन्ति तेषां सर्वेषां रूपं परमपुरुषस्य चित्तं गृह्णाति इति कृत्वा चित्तेन रूपं धृतम् इति तु सत्यम् इति तु सत्यं यत् यथा अस्माकं कल्पना अस्ति यथा अस्माकं कल्पना स्थगिता भवति तथा नास्ति परमपुरुषस्य कल्पना तर्हि यदा वयं श्वः उत्थानं कुर्मः निद्रातः तदानीम् अस्माकं स्वप्ना भग्नः स्वप्नः भग्नः भवति परन्तु परमपुरुष् पुरुषस्य तथा नास्ति परमपुरुषस्य तथा नास्ति तस्य चित्ते जगतः आकारः वर्तते आकारः वर्तते तत्तु सर्वदा वर्तते तद्यपि परमपुरुषः सूक्ष्मः अस्ति जगत् स्थूलम् अस्ति कथं स्थूलस्य बीजं परमपुरुषे वर्तते इति चेत् तत्तु स्थूल स्थूलभूतं जगत् परमपुरुषस्य चित्ते कल्पना वर्तते इति वयम् अवगन्तुं शक्नुमः तर्हि इत्युक्ते तत्र इतोपि वक्तव्यं चेत् लैक् वि ऐस् ऐस् हिमखण्डः यथा दि बिकम्स् वेपर् रैट् एण्ड् देन् ऐस् हाव् टु गो वयार् सेट् आफ् वाटर् रैट् सो इफ् ऐस् गेट् वार्म् देन् इट् बिकम्स् वाटर् एण्ड् देन् अगेन् इट् बिकम्स् वेपर् सो एव्रिथिङ्ग् हेस् टु गो थ्रू फेसेस् रैट् एवम् अत्र पुरुषः अपि पुरुषः अपि गणीभूतः भवति गणीभूतः भवति यदा सः स्थूलाकारं गृह्णाति इति कृत्वा तत्र द्वादशवादनात् षड्वादनपर्यन्तं यदा क्षितिरूपेण सः आकारं गृह्णाति पुरुषः तदानीं सः स्थूलभूतं स्थूलभूतं भवति स्थूलभूतं भवति परन्तु एतत् सर्वं जगतः सामग्री तु पुरुषः एव अस्ति जगतः सामग्री तु पुरुषः अस्ति पर परन्तु सर्वं क्रमेण वर्धनं भवति क्रमेण वर्धनं भवति इत्युक्ते झटिति जगत् जगत् आयाति इति न क्रमेण तस्य वर्धनं भवति प्रथमतया चित्तम् आयाति तदनन्तरम् अत्र सृष्टिचक्रं कथं भवति इति अस्माभिः दृष्टं खलु तर्हि सर्वं क्रमेण एव आयाति ओके तर्हि इदानीम् अग्रे गच्छामः क्रमेण सस्यस्य सूक्ष्ममात्मानं स्थूलीकृत्य सगुणभ्रमणा स्वचित्ते विश्वसृष्टः विश्वः सृष्टः सूक्ष्मा सृष्टिः कथं स्थूलः अभवत् प्रकृतिः सगुणब्रह्मणि पुरुषम् गुणान्वितम् करोति अनेन कारणेन जगतः सृष्टिः भवति यथा जीवात्मनः विषये सत्त्वगुणः अथवा प्रकाशमाना प्रकृतिः पुरुषम् प्र, प्रकृतिः प्रथमम् पुरुषम् गुणान्वितम् करोति ततः च बुद्धि बुद्धितत्वम् अस्तित्वम् प्राप्नोति बुद्धितत्वम् पुरुषाय अहम् इति भावम् ददाति अथ रजोगुणेन अथवा वुर्कृत् विकृतप्रत्यया ततः बुद्धिमत्त्वम् अधिकम् गुणान्वितम् कृत्वा सगुण सगुणब्रह्मणः अहं तत्त्वम् निर्मीयते अन्तिमे तमोगुणेन अथवा स्थिरप्रकृत्या सगुणब्रह्मणः अहं तत्त्वम् गुणान्वितम् कृत्वा चित्तम् च निर्मीयते स्वभावतः बुद्धितत्वम् अहं तत्त्वम् चित्तम् च त्रयः मनसः भागाः सूक्ष्माः सन्ति सूक्ष्मम् वा अमूर्तम् जगत्वा सगुणब्रह्मणः मनः प्रकृतेः गुणात्मकप्रभावात् एव निर्मितम् भवति बुद्धितत्वम् अहं तत्त्वम् चित्तम् च क्रमेण पुरुषस्य अथवा चैतन्यस्य विकारः अस्ति बुद्धितत्वम् अहम् तत्त्वम् चित्तम् चेते सर्वे सूक्ष्माः किन्तु बुद्धितत्वम् तु त्रिषु अपि सूक्ष्मतमम् सूक्ष्मताक्रमेण अहम् तत्त्वम् सूक्ष् सूक्ष्मतरम् चित्तस्य अपेक्षया अन्तिमम् अन्तिमम् चित्तम् बुद्धितत्वे एकः विचारः अस्ति सः च अहम् इति भावः अहं तत्त्वे वयम् अहम् इति भावस्य अतिरिक्तम् अन्यम् विचारं प्राप्नुमः सः च करोमि अहङ्कारः इति विचारः यस्मिन् कस्मिन् अपि बहुसङ्ख्या सङ्ख्याकत्वेन भूतानि सन्ति तत् न्यूनयुक्तस्य अपेक्षया स्थूलतरम् भवति अतः अहं तत्त्वम् बुद्धितत्वापेक्षया स्थूलतरम् चित्तम् अहं तत्वस्य क्रियाफलम् सृजति तेन सूक्ष्मम् स्थूलम् वा विषयताम् लभते चित्तम् अहं तत्वापेक्षया स्थूलतरम् बुद्धितत्वं प्रथमम् निर्मितं भवति इति उपरि दृष्टम् अहं तत्वं बुद्धितत्वस्य अनुवर्तनम् करोति चित्तम् अन्तिमरूपेण निर्मितम् भवति एवम् सृष्टिप्रवाहे गतिः सूक्ष्मात् स्थूलपर्यन्तं भवति मया तु पुनः एकवारं पठित्वा एव वक्तुं शक्नोमि भगिनी नोचित। चेत् न प्रत्येकं प्रत्येकं पङ्क्तिं स्वीकृत्य पठित्वा वदतु गो बै लाइन बै लाइन एकैकं पङ्क्तिं स्वीकृत्य पठतु श्रूयते वा हरि ओम् भगिनि स्क्रीन् उपरि करोतु ओके ओके क्षम्यसां भगिनि उपरि किमपि अभवत् मम किमपि नुदित्वा कुत्रापि अभवत् आगच्छत् आगच्छत् वा आगतभवत् इदानीमस्ति क्रमेण सर्व स्वस्य सूक्ष्मात्मनं क्रमेण स्वस्य सूक्ष्मा सूक्ष्मात्मनं स्थूलीकृत्य सगुणभ्रमणा स्वचित्ते विश्वः सृष्टः सो क्रमेण so, uh, um, इत्युक्ते एकमेकम् uh, एक क्रमेण सः स्वस्य uh, स्वस्य आत्मनं स्वस्य सूक्ष्म सूक्ष्म आत्मनम् अस्ति किल तत् स्थूलीकृत्वा सगुणब्रह्म ब्रह्मणा स्वचित्ते विश्वः सृष्टः uh, uh, स्वस्य चित् चित्ते अस्मिन् चित्ते, uh, um, as, um, चित्ते एव uh, जगतः विश्वः सृष्टः सो सूक्ष्मः सृष्टि सूक्ष्मात् सृष्टिः कथं स्थूलः अभवत् सो वेन् इट् इस् वेरि सटल् तस्मात् कथं वेन् हौ डि इट् बिकम् कान्क्रीट् फ्रम् अ सटल् सम्थिङ्ग् कथं स्थूलः अभवत् इति प्रकृति सगुणब्रह्मणि पुरुषं गुणान्वितं करोति सो प्रथमं तु प्रकृतिप्रभावः भवति ब्रह्मणि उपरि अतः ब्राह्मण सगुणः भ्रमति सगुणि ब्रह्मणि प्रकृतिः प्रकृतिः सगुणब्रह्म ब्रह्मणि यत् पुरुषं स्थितम् अस्ति तत् पुरुषं गुणान्वितं परतमं करोति अनेन कारणेन जगतः सृष्टिः भवति सो प्रकृतिः प्रभावेन पुरुष पुरुषे प्रभावं प्रकृतेः प्रभावं आ, प्र पुरुषे भवति तेन कारणेन पुरुषः अपि गुणान्वितम् अत् इत्युक्ते सगुणब्रह्मण सगुणब्रमणीयं पुरुषमस् पुरुषमस्ति तं पुरुषं गुणान्वितं करोति प्रकृतिः अनेन कारणेन जगतः सृष्टिः भवति इदानीम् किञ्च पुर पुरु पुरुषस्य उपरि प्रभावं भवति किल प्रकृतेः अतः जगतः सृष्टिः भवति अनेन कारणेन एव प्रभावमस्ति अतः यथा जीवात्मनः विषये सत्त्वगुणः अथवा प्रकाशमाना प्रकृतिः प्रथमं पुरुषं गुणान्वितं करोति ततः च बुद्धितत्वम् अस्तित्वं प्राप्नोति यथा जीवात्मनः विषये जीवात्मनः विषये अपि अपि सत्त्वगुणः प्रकाशमानप्रकृ अथवा प्रकृति प्रथमं पुरुषं गुणान्वितं करोति ततः ततः च बुद्धितत्त्वम् अस्तित्वं प्राप्नोति अत्र so, the... भगिनी अत्र ज्ञातविषयात् अज्ञातविषयस्य विषये अत्र उच्यमानमस्ति इत्युक्ते ज्ञातविषयः कः इति चेत् जीवात्मा अस्माकम् अस्माकं सर्वेषाम् अनुभवः अस्ति खलु अहमस्मि इति भावः सर्वेषां वर्तते अहमस्मि अहमस्मि इति भावः सर्वेषां वर्तते तर्हि अनेन वयम् अवगन्तुं शक्नुमः यत् प्रकृतेः प्रभावात् तत्र अहं महत्तत्त्वस्य अस्तित्वं भवति येन अहमस्मि इति भावः अस्ति खलु अस्माकम् अस्माकमपि तत्र प्रकृतेः प्रभावात् जीवात्मा महत्तत्वरूपेण आकारं गृह्णाति खलु अनन्तरं क्रमेण रजोगुणस्य प्रभावेन तत्र महत्तत्त्वं रजोगुणस्य प्रभावेन गुणान्वितं भवति तेन अहं तत्त्वस्य निर्माणं भवति खलु एवं तमोगुणस्य प्रभावेन अहं तत्वं यदा गुणान्वितं भवति तमोगुणेन तदानीं चित्तस्य निर्माणं भवति यथा अस्माकमस्ति यतो हि अस्माकम् अहङ्कारः अस्ति अहं करोमि इति भावः अस्ति तर्हि तत्र चित्तं कार्यस्य आकारं गृह्णाति खलु तर्हि यथा अस्माकमस्ति तथैव परमपुरुषस्यापि अस्ति इदानीं वदतु सो यथा स सगुणभ्रमणी उपरि प्रकृतेः प्रभावं भवति तथैव जीवात्मनः उपरि अपि प्र प्रकृतेः प्रभावं भवति तेन कारणेन एव पुरुषं प्रथमं पुरुषं गुणान्वितं करोति अनन्तरं बुद्धितत्वम् अस्तित्वं प्राप्नोति सो अहम् अस्मि इति तत्त्वं प्राप्नोति इत्युक्ते अहम् अहङ्कार अहम् इति बुद्धितत्वं पुरुषाय अहम् इति भावं ददाति बुद्धितत्वम् एव नास्ति चेत् अहम् इति भावमेव न भवति वयं तत्र किञ्चित् इतोपि स्थूलकरम् अस्ति बुद्धितत्वं प्रथमम् अनन्तरम् अहम् इति भावम् सत्यं भगिनी महोदय बुद्धि पुनः पृच्छतु तत्वा? बुद्धितत्वं बुद्धितत्वं प्रथमम् आग अस्ति प्रकृतेः प्रभावेण गुणान्वितं करोति पुरुषम् आत् जीवात्मन जीवात्मन पुरुष जीवा जीवात्मनः पुरुषम् उपरि प्रभावं भवति प्रकृतेः तस्य प्रकृतेः सत्त्वगुणस्य प्रभावेन प्रकृतिः सत्त्वगुणस्य प्रभावः भवति पुरुषस्य उपरि तदानीं महत्तत्त्वं महत्तत्वम् आयाति यदा महत्तत्त्वम् आयाति महत्तत्त्वं मनसः भागः मनसः भागः महत्तत्त्वं यदा महत्तत्वम् आयाति तदानीम् अहम् अस्मि इति भावः आयाति Uh -huh. so, uh -huh. इदानीम् अहम् अस्मि इति भावः आगच्छति तत् बुद्धि बुद्धितत्वम् अपेक्षया किञ्चित् स्थूल स्थूलत्वम् अधिकत्वं न न बुद्धितत्वम् आयाति चेदेव तत्र भावः आयाति अहम् अहमस्मि इति भावः अतः द्वयमपि एकमेव वा बुद्धितत्वम् अपि च अहं बुद्धितत्वम् मा आया मनसः भागः आयाति चेत् तदानीम् अहमस्मि इति भावः आयाति बुद्धितत्वात् अत्र बुद्धितत्वस्य अपेक्षया महत्तत्त्वम् इति वदामः महत्तत्त्वम् आम् अस्तु अस्तु महत्तत्त्वम् इत्युक्ते हा तत् अर्थम् अधिकं ज्ञातुं शक्नुमः महत्तत्त्वम् इत्युक्ते महत्तत्त्वम् इति महतत्वात् अहं तत्त्वम् आगच्छति महत एव पुरुषाय अहम् इति भावं ददाति तत्र अथ रजोगुणेन अथवा विकृतप्रकृत्या ततः बुद्धितत्वम् अधिकं गुणान्वितं कृत्वा सगुणब्रह्मणः अहं तत्त्वं निर्मीयते सो इदानीं पूर्वं सत्त्वगुणः एव आसीत् इदानीं रजोगुणेन इदानीं प्रकृ प्रकृति प्रकृत्याः अधिकं प्रभावेन विकृ विकृतं विकृतप्रकृत्या ततः महत् महत्तम् अधिकं गुणान्वितं कृत्वा सगुणब्रह्मणः अहं तत्त्वं निर्मीयते सो महत्तत्त्वस्य प्रभावम् महत्तत्त्वस्य उपरि प्रकृतेः प्रभावम् अधिकम् भवति अधिकं गुणान्वितं भवति अतः अहं तत्त्वम् अहम् इति अहं तत्त्वं निर्मीयते अन्तिमे तमोगुणेन अथवा स्थिरप्रकृत्या स्वगुणब्रह्मणः so, अहं तत्त्वं गुणान्वितं कृत्वा गुणान च निर्मीयते सो so, प्रथमं सत्त्वगुणमासीत् तत्र बुद्धि महत्तत्त्वं प्रकृतेः प्रभावेन अहम् इति भावः आगच्छति इदानीम् इतोपि अधिकं प्रभावे प्रभावेण रजोगुण रजोगुणस्य का रजो गुण रजो रुज रजोगुणेन अहं तत्वं इदानीं प्रकृति प्रकृतया प्रक, प्रकृत, प्रकृतेः प्रकृत्या प्रकृतेः प्रभावम् अधिकं भूत्वा तमोगुणेन नो चेत् स्थितप्र प्रकृत्या स्थिरप्रकृत्या पूर्वं किञ्चित् सूक्ष्म आसीत् इदानीं किञ्चित् स्थूलम् आगच्छति अतः न न न स्थूलमिति न स्थिर स्थिरप्रकृत्या बुद्धितत्त्वम् अधिकं अधिकगुण अहं तत्त्वस्य गुणान्वितं पुनः कृत्वा चित्तं निर्मीयते सोदि का कान्शियस्नेस् न चित्तं कान्शियस्नेस् न भवति सो तत् प्रथमं सत्त्वगुणम् अनन्तरं रजोगुणेन अहम् इति अहम् इति भावं भवति uh, पुनः uh, प्रकृत्या uh, गुणान्वितं कृत्वा चित्तं निर्मियते। स्वभावतः बुद्धितत्वम् अहं तत्त्वं चित्तं च त्रयः मनसः भागाः सूक्ष्माः सन्ति सो एत्र ये त्रयः मनसः ये त्रयः इत्युक्ते बुद्धितत्वम् अहं तत्त्वं चित्तम् चित्तं त्रयः अपि मनसः भागाः मनसस्य सूक्ष्माः भागाः सन्ति सूक्ष्मं वा अमूर्तम् जगत्वा सगुणब्रह्मणः मनः प्रकृतेः गुणात्मकप्रभावात् एव निर्मितं भवति सो अमूर्तम् न स्थूलम् यत् नास्ति तत् सो सूक्ष्मं वा अमूर्तम् जगत्वा सगुणब्रह्मणः मनः प्रकृतेः गुणात्मकप्रभावात् एव निर्मितं भवति प्रकृतेः गुणात्मकप्रभावात् सो पुनः इति अधिकं गुणान्वितं करोति प्रकृति अतः एतत् निर्मितं भवति एषः सो मनः नो एतत एव एतत् मनः निर्मितं भवति बुद्धितत्वम् अहं तत्त्वं चित्तं च क्रमेण पुरुषस्य अथवा चैतन्यस्य विकारः अस्ति सो so, इदानीं पुरुषः इत्युक्ते किम् इत्युक्ते अन्यनाम अस्ति चैतन्य चैतन्यस्य विकारः किम् इत्युक्ते बुद्धितत्वम् अहं तत्त्वं चित्तम् uh, ये त्रयः पुरुषस्य चे नो चेत् विकारः अस्ति सन्ति बुद्धितत्वम् अहं तत्त्वं अस्ति एव बुद्धितत्वम् अहं तत्त्वं चित्तं छे छे च इति सर्वे सूक्ष्माः किन्तु बुद्धितत्वं च त्रिषु अपि सूक्ष्मतमम् सो अत्र बुद्धितत्वमस्ति तत् गुणान्वितं कृत्वा पुरुषस्य गुणान्वितं कृत्वा अहं तत्त्वम् अहं तत्व इतोपि गुणान्वितं कृत्वा प्रकृ प्रकृत्या चित्तम् आगच्छति किन्तु एतेषु सर्वेषु सूक्ष्माः किम् अस्ति चेत् बुद्धितत्वमयः सूक्ष्मतमम् अस्ति सूक्ष्मता सूक्ष्मताक्रमेण अहं तत्त्वम् सूक्ष्मतरं चित्तस्य अपेक्षया अन्तिमम् च चित्तम् सो सूक्ष्म सूक्ष्मतमं बुद्धि बुद्धितत्वम् इत्युक्ते चित्तम् न्यूनमेव सूक्ष्म सूक्ष्म सूक्ष्मं किञ्चित् न्यूनमेव चित्तस्य सूक्ष्म सूक्ष्मम् अहक्ष्मत्वं सूक्ष्मत्वं किञ्चित् न्यूनमेव अथवा एवं वक्तुं शक्नोति महत्तत्त्वस्य अपेक्षया अहं तत्त्वं स्थूलतरम् अहं तत्त्वस्य अपेक्षया चित्तं स्थूलतरम् वक्तुं शक्नोति आम् तथैव साधु तदेव साधु बुद्धितत्वे एकः विचारः अस्ति स च अहम् इति भावः अहम् तत्त्वे वयम् अहम् इति भावस्य अतिरिक्तं अन्यम् विचार प्राप्नुमः स च करोमि अहङ्कारः इति विचारः अहम् करोमि इति अहङ्कारः तद् uh, यस्मिन् कस्मिन्नपि बहु सङ्ख्य सङ्ख्याकत्वे सङ्ख्याकत्वेन भूतानि सन्ति ुक्तस्य अपेक्षया स्थूलतरम् भवति बहुसङ्ख्याकत्वेन भूतानि सन्ति तत् न्यूनयुक्तस्य अपेक्षया स्थूलतरम् भवति यस्मिन् कस्मिन् अपि बहुसङ्ख्याकत्वेन भूतानि सन्ति तत् न्यूनयुक्तस्य अपेक्षया स्थूलतरम् भवति तत् प्रायः वाट् ऐ अर्थम् इत्थं भवितुम् अर्हति किन्तु तत् मम तत् किं मम मया अवगतं तत् तदेव तत्र लिखितं वा अहं न जानामि प्रयत्नं करोमि बहवः बहवः भूतानि सन्ति तत्र यत्र तत् यस्मिन् अपि सो स्थूलतरं भवति चेत् तत्र तत्र सूक्ष्म इत्युक्ते भगिनि अत्र पश्यतु यदा तत्र तन्मात्राणां विषये अस्माभिः चर्चा कृता Hmm. तदानीं सु, सु, किम् उक्तं यत्र अधिकानि तन्मात्राणि सन्ति तदितोपि स्थूलं वर्तते इति उक्तं खलु इत्युक्ते आकाशे केवलं शब्दतन्मात्रमेव hmm. अस्ति परन्तु तत्र वायौ शब्दः अपि अस्ति स्पर्शः अपि अस्ति इति कृत्वा वायुः स्थूलः अस्ति आकाशस्य अपेक्षया स्थूलतरः अस्ति इति उक्तं खलु तर्हि यस्मिन् hmm. कस्मिन्नपि अहं तु भूतानि इत्युक्ते बीङ्ग्स् अपि अन्य अर्थमस्ति किल सो बहु uh, संख्यत्वेन भूतानि सन्ति तत्र स्थूलतरम् अधिक तत्र यस्मिन् पञ्चभूतस्य न पञ्चभूतस्य विषयः नास्ति पञ्चभूतस्य विषयः नास्ति एकक्षणम् अहं वदामि अस्तु अत्र पश्यतु महत्तत्त्वे केवलम् अहमस्मि इति भावः अस्ति यदा अहं तत्त्वस्तरे वयम् आगच्छामः तदानीम् अहमस्मि इति भावः अपि अस्ति अहं करोमि इति भावः अपि अस्ति अनन्तरं यदा चित्तस्तरे वयम् आगच्छामः अहं करोमि अनन्तरं चित्तम् तत्र कार्यस्य आकारमपि गृह्णाति इति कृत्वा चित्ते इतोपि फेक्टर्स् सन्ति अहङ्कारे फ्याक्टर् द्वयम् अहमस्मि अहं करोमि तत्र चित्ते अहमस्मि अहं करोमि अनन्तरम् आकारः अपि अस्ति यतोहि तत्र महत्तत्त्वम् एव अहङ्काररूपेण अहं तत्त्वरूपेण परिणतम् अहं तत्वमेव चित्तरूपेण परिणतम् इति कृत्वा तत्र तत्र भावः तत्र वर्धते यदा यदा यदा भावः वर्धते तदानीं तत्र इतोपि स्थूलं भवति भगिनि hmm. अत्र अहंकारस्य वर्धनं भवति चेत् अपि स्थूलतमं स्थूलतमपि भवति वा तद् अहङ्कारस्य अहंकारस्य अहङ्कारस्य वर्धन, इतिना न पश्यतु hmm. यदा महत्तत्त्वम् आयाति तदानीम् अहम् अस्मि इति भावः खलु आं तदानीमेव प्रथमवारम् अहमस्मि इति भावः भवति महत्तत्वम् अस्ति चेत् तदानीं महत्तत्त्वं महत्तत्त्वम् अहमस्मि इति भावः अस्ति चेत् एव अहं करोमि इति भावः आयाति अहम् अस्मि इति भावः एव नास्ति चेत् करोमि इति भावः न खलु अतः यदा अहं तत्वम् आयाति तत्र भावद्वयं भवति अहम् अस्मि इति भावः अपि अस्ति अहं करोमि इति भावः अपि अस्ति अहं तत्वं यदा आयाति इति कृत्वा अहं तत्वम् इतोपि स्थूलं मातत्त्वस्य अपेक्षया यतोहि तत्र भूतद्वयं वर्तते इट् हे टु यदा चित्तपर्यन्तं वयम् आगच्छामः तदानीं तत्र त्रि फेक्टर्स् अहम् अस्मि इत्यपि अस्ति अहं करोमि इत्यपि अस्ति तदनन्तरं चित्तं कार्यस्य आकारं गृह्णाति इति कृत्वा वेन् इ कम् द चित्तम् इट् हेस् त्री फेक्टर्स् बिका यु नीड् टु हेव् दट् अहम् अस्मि इति भावः अहं करोमि इति भावः अपि भवेत् तदानीमेव चित्तं किमपि करोति खलु इति कृत्वा चित्तम् इतोपि स्थूलतरम् अस्ति अस्तु भगिनि इदानीम् अवगतं प्रायः भवती एव विस्तारेण वदनीयम् इतः इतः अनन्तरम् अतः अहम् तत्त्वम् बुद्धितत्वापेक्षया स्थूलतरम् भवति आम् इदानीम् अवगतम् चित्तम् अहं तत्त्वस्य क्रियाफलम् सृजति तेन सूक्ष्मम् स्थूलम् वा विषयता विषयताम् लभते चित्तम् अहम् तत्त्वापेक्षया स्थूलतरम् बुद्धितत्वम् प्रथमम् निर्मितम् भवति इति उपर उपरि दृष्टम् अहं तत्त्वम् बुद्धितत्वस्य अनुवर्तनम् करोति आम् चित्तम् अन्तिमरूपेण निर्मितं भवति एवं सृष्टिप्रह प्रवाहे गतिः सूक्ष्मा स्थूलपर्यन्तं भवति सो तत्र व्य वयं दृष्टवन्तः इदा इतः पर्यन्तम् अहं तत्र अहं तत्त्वम् अहं बुद्धितत्वात् अहं आगच्छति अहं तत्र भवति अहम् अस्मि अहं करोमि इति अनन्तरं चित्तं अहं तत्त्वात् स्थूल अपेक्षया स्थूलतरं सो सः अहम् अस्मि अहं करोमि अपि च अहं सृजामि इति त्रयं त्रयं चिन्तनं त्रयं त्रयं त्रयं कार्यम् अस्ति सो बुद्धितत्वं प्रथमं निर्मितं भवति इति वयम् उपरि दृष्टम् इदानीं बुद्धितत्त्व अहं तत्त्वं बुद्धितत्त्वस्य अनुवर्तनं करोति चित्तं तु अन्तिमरूपेण निर्मितं भवति एवं सृष्टिप्रवाह्ये गतिः सूक्ष्मात् स्थूलपर्यन्तं भवति सो प्रवाहः इत्थं प्रथमं बुद्धितत्वं तस्मात् अहं तत्त्वं तस्मात् अहं तत्त्वं बुद्धितत्वस्य अनुवर्तनं करोति एण्ड् चित्तम् अन्तिमरूपेण निर्मितं भवति अपि च तत् स्थूलपू हा निर्मितं भवति एवमेव वाहे गतिः भगिनी बट् ऐ थिङ्क्लीस् एक् भवती अपि किञ्चित् सो अत्र इत्युक्ते तत्र वयं इत्युक्ते वयं तत्र मनसः निर्माणं कथं भवति इति तु वयं जानीमः खलु सृष्टिचक्रे अस्माभिः दृष्टम् इत्युक्ते तत्र पुरुषः वर्तते यदा प्रकृतेः गुणानां प्रभावः भवति सत्त्वगुणस्य प्रभावः भवति प्रकृतेः उपरि प्रपुरुषस्य उपरि प्रकृतेः सत्त्वगुणस्य प्रभावः यदा भवति तदानीं महत्तत्त्वस्य निर्माणं भवति महत्तत्त्वस्य निर्माणं यदा भवति तदानीम् अहम् अस्मि इति भावः भवति अनन्तरं यदा प्रकृतेः रजोगुणस्य प्रभावः भवति महत्तत्त्वस्य उपरि तदानीम् अहं करोमि द डुवर् ऐ कम्स् इन् टु पिक्चर् तदनन्तरं यदा प्रकृतेः तमोगुणस्य प्रभावः भवति अहं तत्त्वस्य उपरि तदानीं तत्र डन् ऐ चित्तं बहिः यद्वस्तु अस्ति तद्वत् भवति तिस् बिकम्स् द मूवी स्क्रीन् आफ़् द मैण्ड् खलु एतत् सर्वम् अस्माभिः पूर्वमपि दृष्टं एतत् एतत् किमर्थं भवति इति चेत् प्रकृतेः गुणप्रभावात् भवति अपि च अत्र अस्ति इति चेत् महा इत्युक्ते पुरुषः सूक्ष्मः अस्ति तर्हि पुरुषस्य अपेक्षया यदा गुणस्य प्रभावः भवति यदा स्थूलीकरणं भवति क्रमेण स्थूलीकरणं जायमानम् अस्ति यदा पुरुषः सूक्ष्मः सूक्ष्मः अस्ति यदा गुणस्य सत्त्वगुणस्य प्रभावः भवति तदानीं पुरुषः किञ्चित् स्थूल स्थूलं भवति किञ्चित् स्थूलः भवति पुरुषः यतोहि सत्त्वगुणस्य सत्त्वगुणः पर्से सत्त्वगुणः इस् सूक्ष्म रैट् इस् सूक्ष्म कम्पेर् टु दि अदर् गुणात् सो सत्त्वगुणस्य प्रभावः यदा भवति तदानीं महत्तत्वम् आयाति महत्तत्वं पुरुषस्य अपेक्षया स्थूलः अस्ति स्थूलम् अस्ति इदानीं महत्तत्वस्य उपरि पुनः रजोगुणस्य प्रभावः भवति रजोगुणः सत्त्वगुणस्य अपेक्षया स्थूलम् अस्ति इति तादृशगुणस्य प्रभावः महत्तत्वे भवति तदानीम् अहं तत्त्वम् आयाति अहं तत्त्वं मत्तत्त्वस्य अपेक्षया स्थूलमस्ति स्थूलमस्ति तदनन्तरं तमोगुणस्य प्रभावः अहं तत्वे भवति तमोगुणः रजोगुणस्य अपेक्षया इतोपि स्थूलं स्थूलः वर्तते स्थूलतमः वर्तते तर्हि तस्य प्रभावः यदा अहं तत्वे भवति तदानीं चित्तमायाति चित्तम् अहं तत्त्वस्य अपेक्षया स्थूलं वर्तते इति अत्र वार्ता अस्ति इत्युक्ते यद् अस्माभिः दृष्टं तदेव अत्र उक्तमस्ति केवलं स्पष्टीकृतमस्ति अत्र क्रमेण कथं तत्र क्रमेण सृष्टिः कथं जायमाना अस्ति इत्युक्ते सर्वम् एक झटिति आयाति इति न क्रमेण गच्छति गुणस्य प्रभावः क क्रमेण जायते तदानीं क्रमेण एकैकम् अंशः मनसः एकैकम् अंशः आयाति एकैकः अंशः आयाति इति अत्र उच्यमानमस्ति इत्युक्ते जटिलं नास्ति अत्र यद् यद् पूर्वं दृष्टं तस्य एव स्पष्टीकरणमस्ति अत्र अवगतं वा भगिनि दा आं भगिनि इदानीम् अवगतं हा इत्युक्ते प्रथमसोपानं प्रथमसोपानं सृष्ट्यां प्रथमसोपानं किम् इति चेत् तत्र भूमामनसः निर्माणमेव प्रथमसोपानं भूमामनः abhumamana saha nirmanam the creation of the cosmic mind is the first step and the cosmic mind is the guna it is with gunas it is created by the virtue of the three gunas of prakriti and it contains elements which are produced by those very gunas so sequentially this happens right so the buddhi the daham ta, the mahatattva is the pure is the aham asni aham asni iti bhavaha right and the daham asni is bhava comes because of the sattva guna right uh, satva guna and then slowly the other uh, the, the rajo guna and tamo guna impact and we get the aham tattva and the maha tattva right so so at any point all the three gunas are there but one guna becomes predominant and that is how you get the the components of the mind and chitta is like the movie screen of the mind the aham tattva is the doer i and the man tattva is the i ceiling so we see this is a gradual process and not a sudden process this gradual evolution of consciousness becoming qualified uh goes first to the subtlest one being the mahatattva and then aham tattva and then chitta right so, so slowly it is becoming from subtle it is slowly getting tulikaranam tulikaranam so the mind itself doesn't admit the tanmatras right all the mind itself is uh, is subtle so when we say bhuta it doesn't mean the pancha bhutas the mind will not allow any of the tanmatras mind does not allow tanmatras so the mind they are they are, they are subtle compared to the pancha bhutas the mind is subtle but within the mind the chitta is the crudest compared to the mahatatvam and the uh, aham tatvam so whatever the aham tatvam wishes to see that gets uh, uh, visualized through the movie screen of the mind which is the chitta right so i think it is making sense right so eva meva tatrasulikaranam jayate sukshmat sula paryanta okay atra saganam kurmah samaya ahitah a koi prashna hava namaskara bagni dhanyavaad aapko dhanyavaad namaskar samaya ahitah sameta धन्यवादः है, है। नमस्कारः